चास्य प्रतिजग्राह स सुतः शासनं तदा प्रीतिपूर्वं महाराजा वासुदेवमवेक्ष्य च ततः सरत्नान्यादाय पुनः प्रायाद्युधाम् पतिः तत वशे चक्रे महातेजा दण्डकांश्च महाबलः सागरद्वीपवासांश्च नृपतीन् लेच्छयो निजान् निषादान् पुरुषादांश्च कर्णप्रावरणानपि ये च कालमुखा नाम नरराक्षसयोनयः कृत्स्नं कोलगिरिं चैव सुरभीपत्तनं तथा द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा तिमिङ्गिलं च सनृपं वशे कृत्वा महामतिः एकपादांश्च पुरुषान् केरलान् वनवासिनः नगरीं सञ्जयन्तीं चापाखण्डं करहाटकम् दूतैरेव वशे चक्रे करं चैनानदापयत् पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोण्ड्रकेरलैः आन्ध्रां स्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान् आटवीं च पुरीं रम्यां यवनानां पुरं तथा दूतैरेव वशे चक्रे करं चैनानदापयत् समुद्रतीरमासाद्यान्यविशत्पाण्डुनन्दनः सह देवस्ततो राजन्मन्त्रिभिः सह भारता सम्प्रधार्य महाबाहुः अनुमान्य सतां राजन् सह देवस्त्वरान्वितः चिन्तयामास राजेन्द्र घटोत्कचम् ततश्च चिन्तित चिंतमा राक्षस प्रत्यता अतिदीर्घो महाकाय सर्वाभरणूषि नीलजीमूतस कांचनकुंडल विचिहारकेयूर किंकिणी मणिभूषि हे ममालीमहादंष्ट्रः किरीटीकुक्षिबन्धनः ताम्रकेशो हरिश्मश्रुर्भीमाक्षः कनकाङ्गदः रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली जवेन स